नारायणीयं दशकं फोर्टीन् मीटर् वसन्तमालिका समनुस्मृततावकाङ्घ्रियुग्मः समनुःपङ्कज सम्भवाङ्गजन्मा निजमन्तरमन्तराय मंदरा हीनं चरिदं ते कथयन् सुखं निनाय समये खलु तत्र कर्दमाख्यो द्रुहिण चाय भवस्तदीयवाच दृतः सर्गरसो समासिषेवे गरुडोपरिकालमेखकम्रम् विलः हसितोल्लसिताननं विभोक्त्वं वपुरा विष्कुरुषे स्म कर्दमाय पुलका वृताय तस्मै मनुपुत्रीं दयिदां नवापि पुत्रीः कपिलं च सुदं स्वमेव पश्चात् सुगतिं चाप्यनुगृह्य निर्गतो भूः समनुशदरूपया महिष्या गुणवत्या सुतया च देवहूत्या भवदीरिदनारदोपदिष्टः समगात् कर्दममागति प्रतीक्षम् मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ भवदर्चन निर्वृतोपि तस्यां दृढशुशोषणया दधौ प्रसादं स पुनस्त्वदुपासनप्रभावाग्दयिता कामकृते कृते विमाने वनिताकुलसङ्कुलो नवात्मा व्यहरदेव पथेषु देवहूत्या शतवर्षमधव्यधीत्यसोऽयं नवकन्याः समवाप्य धन्यरूपाः वनयानसमुद्यतोऽपि कान्दा हितकृत्व जननोत्सुकोऽन्यवाक्सीद निरताया मधदेवदेवहूत्या कपिलस्त्वमजा यथा जनानां प्रथयिष्यन् परमात्म तत्त्वविद्याम् वनमेयुषि कर्दमे प्रसन्ने मदसर्वस्वमुपादिशन् जनन्यै कपिलात्मकवायु मन्दिरे शत्वरि धं त्वम् परिपाहि मां गदौखाद ॐ सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द